Mm hmm. Thank you. बोते श्वनि श्वनि Thank <laughs> you. Thank hey. you. Let it stay ले <Gülüşmeler> <Gülüşmeler> प्रकाश गः सजते आसी